गणेशपुराणं क्रीडाखण्डम् अध्यायं ट्वेन्टि सेवेन् व्यास उवाच पूर्वजन्मनिव्याधोऽसौ क आसीत् द्राक्षसोऽपि सः माचक्ष्वनाभिज अनुष्ठानं कृतं तेन वामनेन कथं प्रभो कथं तस्मै वरो धत्तो गजाननस्वरूपिणा लोहो गणेशस्य कथं पृथगन्यत्र तिष्ठति कथं शमीप्रिया तस्य सर्वमे दद्वदाशु मे क mm. ते सर्वं यद्यत्पृष्टं त्वया मुने राजासीत्पूर्वजनुषि सव्याधो देवपारकः सर्वशास्त्रप्रवक्त्रा च सर्वलक्षणलक्षितः यज्वा विनीतो ह्रीमांश्च देवतातिथिपूजकः गजाश्वरथपतीनां सङ्ख्या यस्य न विद्यते ददा शुच्च मेधावी समृद मखवा वजस्त शत्रुजिद प्रधान बुद्धिम्तरौ यदोधरी ऋद काव्यो गिरा पदीरस्फुट यौ तौ क्षित जेदु समौ शेजसा पत्नीसुक्षण सीना च मदनावधि परिव्रता धर्मशीला सुमुखी सर्ववेदिनी न तया सदृशी काचित्रिषु लोकेषु कामिनी दीनानाथवृद्धजने कृपालुरदिधिष्वपि यजतोर्दतोरेव हृदयो पूजने सदा तयोर्वृत्तेन तु दुषुः पौरा जानपदा जनाः अमित्रा अपि गृह्णन्ति षड्गुणान् साधुसम्मदान् एवं स सा पुष्यकीर्ति सं शशासपृथिवीमिमां बहुसंवत्सरं दैवात् कालधर्ममुपेयिवान् मरिष्यमाणश्चक्रे सौ गोसहस्रं यथाविधि महा दानन्यपि ददौ दशाष्टौ चेदराणि च मृदेस्मिन्नगरी सर्व शुशोच नृपतिं तदा अपुत्रत्वात् सहैवास्य पत्नी सह गतिं ययौ मन्त्रेणौ सर्वसंस्कारान् कारयामासो द्विजैः दददुर्नाना दानानि भक्तितः गते मासे मत्र कुलजं नरं धीमन्तं सत्त्वसम्पन्नं शूरं सत्यपराक्रमं दुर्धर्षस्य सुदन्तस्य दायादस्य महाबलं क्षेत्रजं म्यनाशिष्टम चावुभ अमाश्चय राज्यम दाद पौर जानप्राह्मण परीपृ शुभे मुहूर्ते लग्ने नाना संभार सञ्चयैः कारयामासुभावभिषेकं द्विजैः सह मुनिरुवाच कथं क्षेत्रात् समुत्पन्नः किं जादीयः स साम्बस्तन्ममाचक्ष्व सर्वं नोऽसि कृपानिथे क उवाच दुर्धर्षण कृता यत्न पुत्रार्थं बहुधा मुने न च जातः सुपुत्रोऽस्य तस्य पत्न्या प्रमदया कैवर्तासक्तचित्तया जनितसुमुहूर्ते स न ज्ञातोजस्त्विधि या वन्दे राजचिह्नानि तां वन्दे ददतुश्च तौ निवेद्य कोशसहितं सर्वं राज्यं सराष्ट्रकम् अमात्यपदनिष्ठौ तौ जादावास्तां यथा सराज्यं स राज्यं प्राप्य दुर्धर्ष सुधो मत्तश्रिया भवद स्त्रीमांसमधिरासक्तो मत्तो गज इवालसः दुराचाररथो नित्यं नयमार्गपराङ्मुखः आदाय धनिनां सर्वधनं तान्निरवासयद अपमानं चकाराशुब्राह्मणानां सदामपि बहिश्चकार तान् सर्वान् वृत्तिमाच्छिद्य सान्दधिम् चेष्टस्म प्रकृतिनीतिं न तद्वाक्यं समाददे वारं वारं यदा तौ तं चेष्ठस्म करुणायुधौ अमाख्यौ स बबन्धासु निगडाभ्यां मृषान्विदः शिक्षापयन्तौ पितरौ तस्य तं दुर्हृदं सुतं यत्प्रसादात् त्वया राज्यं निहतकण्टकं विनिग्रहं कथं साध्योस्तयोस्त्वं कुरुषे खल तद्वाक्यं पीयूषमिव पामर शृङ्खलाभ्यां निबद्धौ तौ कारागारेभ्य वासयद अतिदुष्टो दुष्टबुद्धिनामाभूत् तत्सखानिशम् तमेव सचिवं चक्रे दत्वाश्वं काञ्चनं गजं रत्नानि दिव्यवासांसि राग्वास्तरणानि च दासीदासान् असङ्ख्यादान् पानान्यन्नं च नारिकं न करोत्यस्य वाक्यं यस्तस्य चेत्स्ये शिरोबलाद सर्वोकु सांोधपुरुरमायुराणे क्रीड़ाखंडे ओम।